पटन्तो नामानि प्रमदपरसिन्धौ निपतिताः स्मरन्तो रूपम् ते वरद कथयन्तो गुणकथाः चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममूनहम् धन्यान् मन्ये समधिगतसर्वाभिलषितान् गदक्लिष्टम् कष्टम् तव चरण सेवा रसभरेऽप्यनासक्तम् चित्तम् भवति बत विष्णो कुरु दयाम् भवत्पादाम्भोज स्मरणरसिको नाम निवहानहम् गायम् कुहचन विवत्स्यामि विजने कृपा ते जाता चेत् किमिव न हि लभ्यम् तनुभृता भवद्भक्ता मुक्ता सुखगतिमसक्ता विददते मुनिप्रौढारूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोज स्मरणविरुजो नारदमुखाः चरन्तीशस्वैरम् सततपरिनिर्भात परचेत् सदानन्दाद्वैतप्रसर परिमग्ना किमपरम् भवद्भक्ति भवतु मम सैव प्रशमये दशेशक्लेशौघम् न खलु हृदि सन्देहकणिका न चेद्व्यासस्योक्तिस्तव च वचनम् नै गमवचो भवेन्मिथ्या रथ्या पुरुषवचनप्रायमखिलम् भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात् किमप्यारुढा दखिलपरिताप प्रशमनी। पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिळन् महानन्दाद्वैतम् दिशति किमतः प्रार्थ्यमपरम् विधूय क्लेशान्मे कुरुचरणयुग्मम् धृतरसम् भवत्क्षेत्र प्राप्तौ करमपि च ते पूजनविधौ भवन्मूर्त्या लोके नयनमथते पादतुलसी परिघ्राणी घ्राणम् श्रवणमपि ते चारुचरिते प्रभूताधिव्याधि प्रसभलिते मामकहृदि त्वदीयम् तद्रूपम् परमसुखचिद्रूपमुदयात् उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासम् दुरुपशमपीडा परिभवान। मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेहि सोहं सुबहु परितप्ये च अकीर्तिस्ते मा वरदगदभारं प्रशमयन् भवद्भक्तोत्तम् सम् झटिति कुरु माङ्कम् सदमना किमुक्तैर्भूयोऽभिस्तव हि करुणा यावदुदियादहम् तावद् देव प्रहितविविधार्थ प्रलपितः पुरः पादे वरद तवनिष्यामि दिवसान् यथाशक्तिव्यक्तम् नतिनुति विरचयन्